नारायणं नमस्कृत्या नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् अथ श्रीमहाभारते आदिपर्वणि संभवपर्वणि षट्सप्ततितमोऽध्यायः जनमे जय ययाति पूर्वजोस्माकं दशमोय यः प्रजापतेः कथं स लेभे परमदुर्लभाम् एतदिच्छाम्यहं शोतुं विस्तरेण तपोधना आनुपूर्व्या च मेषंस राज्ञो वंशकरान् पृथक् वैशम्पायन उवाच तं शुक्रवृषपर्वाणौ वव्राते वै तत्ते हम संवक्ष्यायानिया संयोगम यतेर्नाहुषामसुराण समय त वै मिथ् प्रतिसर्षस्त्रोक्ये सचराचरे जिगीषया तेव्रीरेसंुनि पौरोज्या्यं तूषन संपरे ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् तत्र देवानि जग्भुर्यान् दानवान्युधि सङ्गतान् तान् पुनर्जीवया मासा काव्यो विद्याबलाश्रयात् ततस्ते पुनरुत्थाय योधयाश्चक्रिरे सुरान् असुरास्तु नि जगभुर्यान् सुरान् समरमूर्धनि नतां तान् सञ्जीवयामासा बृहस्पतिरुदारधीः वेदसतां हि वेदसताम् काव्यो वेत्ति वीर्यवान् सञ्जीविनीम् ततो देवा विषादमगमन्परम् ते तु देवा भयोद्विज्ञाः काव्यादुशनसस्तदा ऊचुक्कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः भजमानान् भजस्वास्मान् कुरु नः साह्यमुत्तमं विद्या निवसति ब्राह्मणेमित तेजसि शुक्रेतामाहर क्षिप्रं भागभाङ्गो भविष्यसि वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः रक्षते दानवांस्तत्र न स दानवान् माराधयितुम् शक्तो भवान् पूर्ववयाः कविम् देवयानीम् च दयिताम् सुताम् तस्य महात्मनः धयितुं शक्तो नान्यः कश्चन विद्यते शीलदाक्षिण्यमाधुर्यै आचारेण दमेन च देवयान्यां हि तुष्टायां विद्यां तां समीपे वृषपर्वणः स ग्वाजन्द संप्रेषि कचह असुरेन्द्रपुरे शुक्रम दृष्टि वाक्यवाच ऋषेरंगिसपौत्र पुत्र साक्षा बृहस्पते ना कचमित ख्या शिष्यं गृह्णत मं भवान्न ब्रह्मचर्य चरष्यामी थय्य हम परमंुरमस्व मं ब्रम्ह सहस्रम परीवत्सरान शुक्रवाचा उवाच कचसुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः वैशम्पायन उवाच कचस्तु तं तथेत्युक्त्वा प्रतिजग्राहतद्व्रतम् आदिष्टं कविपुत्रेण शुक्रेणोऽशनसा स्वयं व्रतस्य प्राप्तकालं सा यथोक्तं प्रत्यगृह्णता आराधयन्नुपाध्यायं देवयानीं च भारत नित्यमाराधयिष्यं स्तौ युवा यौवनगोचरे गायन्नृत्यन्वादयंश्च देवयानीम् अतोषयत सशीलयन्देवयानीम् कन्याम् सम्प्राप्त यौवनाम् पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत देवयान्यपि तम् विप्रम् नियमव्रतधारणम् गायन्ती चलन्ती च रः पर्यचरत् तथा पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् तत्रातियुरथो बुद्ध्वा दानमांसं ततक्कचं गारक्षन्तं वने दृष्ट्वा रहस्येकमर्शिताः जग्नुर्बृहस्पतेर्द्वेषाद्विद्या रक्षार्थमेव च हत्वा शालावृकेभ्यश्च प्राज्ञल्लवशाकृतं ततो गापो निवृत्तास्ता निवेशनम् सा दृष्ट्वा रहिता गांश्च कचेनाभ्यागतापनात् का उवाचवचनं काले देवयान्यथ भारता देवयान्युवाचा आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतं प्रभो अगोपाश्च गता गावः कचस्तातन न दृश्यते व्यक्तं हतो मृतो कचस्तात भविष्यति तं विना न जीवेयमिति सत्यं ब्रवीमिते शुक्रवाचा उवाच अयमेहीति संशब्द्या मृतं सञ्जीवयाम्यहं ततः सञ्जीविनीं विद्यां प्रयुज्य कचमाह्वयत् भित्त्वा भित्त्वा शरीराणि वृकाणां सवि निर्गतः आहूतः प्रादुरभवत् कचोः पृष्टोऽत विद्यया कस्माच्चिराहितोऽसीति पृष्टस्तामाह भार्गवीं समिधश्च कुशादीनि काष्ठभारं च गृहीत्वा शमभारार्त वटवृक्षं समाश्रितः गावश्च सहितास्सर्पा वृक्षच्छायामुपाश्रिताः असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् बृहस्पतिसुतश्चाहं कचैत्यभिविश्रुतः इत्युक्तमात्रे मां हत्वा पेशीकृत्वा तु दानवाः दत्वा शालावृकेभ्यस्तु सुखं जग्मुस्वमानयम् आहुतो विद्यया भद्रे भार्गवेण महात्मना त्वत्समीपमिहायातः कथञ्चित् समजीवितः अतोऽहमिति चाच्चख्यौ पृष्टो ब्राह्मणकन्यया स पुनर्देवया न्योक्तः पुष्पहारो यदृच्छया वनं ययौ कचो विप्रो ददृशुद्धानवश्च तम् पुनस्तम् प्रेषयित्वा समुद्राम्भस्य मिश्रयन् चिरं गतं कन्या पित्रेतं न्यवेदयत विप्रेण पुनराहूतो विद्यया गुरुदेहजः पुनरावृत्य तद्वृत्तम् न्यवेदयत तद्यथा ततस्तृतीयं हत्वा तं दग्त्वा चूर्णशः प्रायच्छन् ब्राह्मणायैव सुरायामसुरस्तदा देवयान्यथा भूयोऽपि पितरम् वाक्यमब्रवीत् पुष्पाहारप्रेषणकृत्कचस्तात न दृश्यते व्यक्तम् हतो मृतो वापि कचस्तात भविष्यति तं विना न च जीवेयम् कचम् सत्यम् ब्रवीमिते शुक्र उवाच बृहस्पते सुतः पुत्री कचप्रेतगतिम् गतः हन्यते करवाणि यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रादेवावसवोथाश्विनौ च सुरद्विषश्चैव जगश्च सर्वमुपस्थाने सन्नमन्ति प्रभावात अशक्योऽसौ जीवयितुम् द्विजातिः संजीवितो वध्यते चैव भूयः देवयान्युवाच यस्याङ्गिरा वृद्धतमपितामहो बृहस्पतिश्चापि पिता तपोनिधिः वृषे पुत्रम् तमथो वापि पौत्रम् कथं न शोचेयमहं न हृद्यां स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः कचस्य मार्गे प्रतिपत्स्येन भोक्ष्ये प्रियोहिमेतात कचोऽभिरूपः वैशम्पायन उवाच स देवयाम्या महर्षिः समाह्वयत् संरम्भाच्चैव काव्यः असंशयम् माम् असुराद्विषन्ति ये मे शिष्यानागतान् चूदयन्ति अब्राह्मणम् कर्तुमिच्छन्ति रौद्रास्ते मां यथा व्यभिचरन्ति अप्यस्य पापस्य भवेदिहान्तः कम्ब्रह्म हत्या न दहेदपीन्द्रम् गुरोर्हि भीतो विद्यया चोपहूतः जठरेव्याजहारा जठरे प्रसीद कचौवाच प्रसीदभगवन्मह्यं कचोऽहमभिवादये यता बहुमतः पुत्रस्तथा मन्यतु माम् भवान् वैशम्पायन उवाच तमब्रवीत्येन पथोपनीत त्वं कचौवाच तव प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्पे यच्च यथा च वृत्तं न त्वेवं स्यात्तपसः संशयो मे ततः क्लेशम् घोरमिमं सहामि असुरैः सुरयाम् दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्या ब्राह्मीमायां चासुरीम् विप्रमायाम् त्वयि स्थिते कथमेवार्तिवर्तेत् शुक्र उवाच किं ते प्रियं करवाण्यद्यवत्से वधेन मे जीवितं स्यात्कचस्य नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देवयानि देवयान्युवाच द्वौ मां शोकौ अग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः कचस्य नाशे मम नास्ति शर्मत्तपोपघाते जीवितुं नास्मि शक्ता शुक्र उवाच संसिद्धरूपोऽसि बृहस्पते सुत यत्त्वाम् भक्तम् भजते ते व यानि विद्यामिमाम् प्राप्नुहि जीविनीम् त्वम् न चेन्दिन्द्रः कचरूपी त्वमद्य न निवर्तेत् पुनर्जीवन् कश्चिदन्त्यो मम मम मम पुत्रो भूत्वा भावयभावितो मामस्मद्देहादुपनिष्क्रम्य ताता समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां संविद्यः वैशम्पायन उवाच विद्यां भित्त्वा कुक्षिं निर्विचक्रामविप्रह शुक्लात्यये पौर्णमास्यामि वेन्दुः दृष्ट्वा चतं पतितं ब्रह्मराशिमुत्थापयामासमृतं कचोऽपि विद्यां सिद्धां तामवप्याभिवाद्य ततः कचस्तम् गुरुमित्युवाच यश्रोत्रयोरमृतं सन्निसिञ्चेद् विद्यामविद्यस्य यथा ममायं तम् मन्येऽहम् पितरम् मातरं च तस्मै न दुःख्येत् कतमस्य जानन् उतस्य दातारमनुत्तमस्य निधिं निधीनामपि लब्धविद्याः येनाद्रियन्ते गुरुमर्चनीयं पापान् लोकांस्ते व्रजन्त्यप्रतिष्ठाः वैशम्पायन उवाच सुरापानाद्वञ्चनां प्राप्य विद्वान् संज्ञा नाशं नै चैव महातिघोरं दृष्ट्वा कचं चापि तथाभिरुपं पीतं मोहितेन समन्युरुत्थाय महानुभावस्तदे शन विप्रहितं चिकीर्षुः सुरापानं प्रति सञ्जातमन्युः काव्यस्वयं वाक्यमिदं च गादा यो ब्राह्मणोऽद्यप्रभृतिः कश्चिन् मोहात् सुरां पास्यति मन्दबुद्धिः अपेतधर्मा ब्रह्म चैव स स्यादस्मिन् मया चैतां सीमां मर्यादां वै स्थापितां सर्वलोके सन्तो विप्राशुश्रुवां सो गुरूणां देवालोकाश्चोपशृण्वन्तु सर्वे इतीदमुक्त्वा समहानुभावत्तपोनिधीनाम् निधिरप्रमेयः तां दानवान्दैव विमूढबुद्धिनिदम् समाहूय वचोऽभ्युवाच आचक्षेवो दानवा बालिशास्तः सिद्धः कचो वत्स्यति मत्सकाशे सञ्जीविनीं प्राप्य विद्यां महात्मातुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः यो कार्षी दुष्करं कर्मदेवानां कारणात्कचः न तत्कीर्तिर्जरां गच्छेत् यज्ञेयश्च भविष्यति एतावदुक्त्वा वचनं विररामसभार्गवः दानवा विस्मयाविष्टाः प्रययुः संनिवेशनम् गुरो महाभारते सकाशे तो संभव सह अतक आदिपर्ण संभवपर्वण इयातुपख्यातिमोध्याय